गणेशपुराणम् उपासनाखण्डम् अध्यायम् 41 व्यास उवाच वरदेन गणेशेन प्रभुणा सर्वकारिणां किं कृतं तन्ममाचक्ष्व पृच्छते चतुरान ब्रह्मोवाच तदोगजाननो विप्ररूपेण त्रिपुरं ययौ महार्हासनसंविष्टं ददर्श द्विजसत्तमः स उद्धाय नमस्कृत्य स्वासने चोपवेशयत सम्पूज्य परि पप्रच्छ कुत्र आगम्यदे द्विज का विद्या किं च ते नाम पृच्छदे ब्रूहि मे द्विज प्रयोजनं च किं तेस्ति चक्रिश्चेत्करवामहे द्विज उवाच सायं गृहावयं इच्छा विहारा इच्छाविहारालोकानाम् भ्रमामो हितकाम्यया कला धरेत्येव नाम्ना विख्याता भुवनत्रये दृष्टुकामा वैभवं ते सम्प्राप्ता भवनं तव अखिलाः सम्पदस्ते दृष्ट्वा तृप्ता स्म न कैलासेन वैकुण्ठे पिने नेदृशी पदे शाक्रेण वै सम्पद्यादृशी दृश्यते तव दैत्य उवाच नाममात्रां कलाधारः किं वा जानासितां द्विज सम्पदः याभ्य एदा प्रशंसी जानासि चेद्दर्शयमेत्तासां मध्ये महोत्कटां दृष्ट्वा दास्ये वाञ्छितं ते प्रियं प्राणमपि द्विज नस्मरे स्मरे परिहासेऽपि विदग्धं भाषितं उने। कलाधर उवाच परेषां संपदं दृष्ट्वा किं स्यात् तव सुरद्विष विनयात्ते प्रसन्नोऽहं कलयादे ददामि वै काञ्चनं राजदं लौहं त्रिपुरं शरसंस्थितं रमतत्र स्थिरोदैत्यचिरकालम् यथा सुखम् अभेद्यं देवगन्धर्वैर्मानुषैरुरगैरपि कल्पितार्थप्रदं तत्ते कामगं कामदं शुभं यदैवैकेन बाणेन कस्मिंश्चित् कालपर्यये भेत्स्यदे तद्धरो दैत्य तदा नाशमुपैष्यति ब्रह्मोवाच इत्युक्त्वा धनुरादाय संस्तभ्य शरमन्तरा पुरत्रयं निर्ममे सौ भुवनत्रयसन्निभम् विचित्रैर्भवनैरम्यै दीर्घिकारामसंयुधः नानानक्षिगणैर्जुष्ठम् सर्वकामप्रदं खगम् मायया मोहिदो दैत्यस्तत्रस्थो चहृषे वद्दैत्यो लोकत्रय लोकत्रयविकम्पनः न मत्तश्रेष्ठ इत्येवं गर्वदर्पसमन्वितः क्षोभया त्रैलोक्यं क्षोभयामासब्राह्मणं तमधाब्रवीद याचस्वदुर्लभतरं तत्ते दास्ये द्विजोत्तम इत्युक्त्वा सद्विजः प्राह तं दैत्यं निःस्पृहोऽपि सन् द्विज उवाच अहम् कैलासमगमम् दृष्टवान्मूर्तिमुत्तमम् शिवेन पूजिताम् सम्यग्गाणेशीम् चिन्तितार्थताम् तामानयत्वमे सेहि शक्तिर्यद्यसुरेश्वर नेतादृशी मया मूर्तिस्त्रैलोक्यम् शरतेक्षिता अदो मम मनस्तस्यामासक्तं दैत्यसत्तम ताम प्राप्य कृतकृत्योऽहं भविष्याम्यसुरेश्वर कीर्तिं ते प्रथयिष्यामि त्रैलोक्ये सचराचरे न दादात्रिपुराच्छेष्ठो वाञ्छितं यः दैत्य उवाच शङ्कर किकरं मन्ये गणये न च देवताः आनयित्वा प्रदास्यामि तां मूर्तिं द्विजपुङ्गव ब्रह्मोवाच इत्युक्त्वा पूजयामास तं कलाधरमादराद ददौ तस्मै दशग्रामान् गोवस्त्रभूषणानि च मुक्ताफलानि भूरीणि महार्हाणीतराणि च रत्नानि च प्रवालानि राङ्गवास्तरणानि च दासीदासशतं नाना भूषायुक्तं दधे सदश्वान् सवरुधांश्च स्वर्णाक्षान् राजदान्रथान् प्रगृह्यैतत्पलाद्दत्तम् प्रययों सकलाधर स्वाश्रमम् हर्षयन् पत्नी सर्वानाश्रमवासिनः ब्रह्मोवाच एवं च सर्वं वृत्तान्तम् नारदो कथयत्सुरान् तेऽपि कालं प्रदीक्षन्तो दिवसानदिचक्रमुः इति श्रीगणेशपुराणे उपासनाखण्डे कलाधरगमनं नामैकचत्वार्यं नामैकचत्वारिंशत्तमोऽध्यायः ओम्